मुद्गलपुराणं खण्डं 2 एकदन्तचरितम् अध्यायं फिफ्टिफोर् मदासुरशान्तिप्राप्ति श्रीगणेशाय नमः गृत्समद उवाच मदासुरप्रणम्यादौ परशुं यमसन्निभम् तुष्टावविधैर्वाक्यैशस्त्रम् ब्रह्ममयम् भयाद मदासुर उवाच नमस्ते शस्त्रराजाय नमस्ते परशो महान तेजःपुञ्जमयायैव कालकालायते ते नमः एकदन्तस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् त्वमेव नात्र सन्देहो रक्ष मां शरणागदम् कालरूपस्त्वमेवेह महाप्रलयसूचकः कः समर्थश्च ते वेगसहने देहधारकः अतस्त्वाम् प्रणमाम्येव्योदिरूपं महाद्भुतम् रक्ष मां भयभेदं वै शरणागतवत्सला एवं स्तुवन्दमत्यन्तं परशुः शान्तिमादधे ययौ त्यक्त्वा पुनर्हस्ते एकदन्तस्य दैत्यप तदो मदासुरशीघ्रं ययौक्तं शरणं भयाद एकदन्तं प्रणम्यादौ पूजयामास सादरं पूजयित्वा य धान्यायं गणेशं धरणीतले दण्डवत्तं प्रणम्यैव भक्र्या तुष्टाव संयुतः मदासुर उवाच नमस्ते एकदन्दाय माया मायिकरूपिणे सदा ब्रह्ममयायैव गणेशाय नमो नमः मूषकारूढरूपाय मूषकध्वजिने नमः सर्वत्र संस्थितायैव बन्धहीनाय ते नमः चतुर्बाहुधरायैव लम्बोदरसुरूपिणी नाभिशेषाय वैतुभ्यं हेरम्बाय नमो नमः चिन्तामणिधरायैव चित्तस्थाय गजानन नानाभूषणयुक्ताय गणाधिपदये नमः अनन्दविभवायैवानन्दमाया प्रचालक भक्तानन्दप्रदात्रेते विघ्नेशाय नमो नमः योगीनां योगदात्रेते योगानां पदये नमः योगाकारस्वरूपाय ह्येकदन्तप्रधारिणे मायाकारं शरीरं त यगशब्दप्रकथ्यते दन्तः सत्ता मयस्तत्र मस्तकस्ते नमो नमः मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा कस्त्वां स्तोदुं समर्थ स्यादस्ते वै नमो नमः शरणागदपालाय शरणागदवत्सल पुनः पुनःसिद्धिबुद्धिपदे तुभ्यं नमो नमः रक्ष मामेकदन्तस्त्वं शरणागदमञ्जसा भक्तं भावेन सम्प्राप्तं संसारात् तारयस्व ेवमुक्त्वा प्रणम्यापि मदकृत्वा प्रदक्षिणाम् कृदाञ्जलिपुडो भूत्वा संस्थितो देवसन्निधौ तमुवाचगणाधीशप्रहृष्टेनान्तरात्मना विकाररहितं दृष्ट्वा हृदयं भक्तिसंयुतम् येकदन्त उवाच त्वां हन्तुं क्रोधसंयुक्तो जादोऽहं नात्र संशयः अधुना शरणं प्रेप्सुं नहन्मि शरणागदम् मदात्मवशगो भूत्वा तिष्ठस्ताने स्वके सदा देवानां वैरमुत्सृज्य मद्भक्तिनिरतो भव वरं वरयमत्तस्त्वं त्वया दास्यामि चिन्तितं विनयेन च सन्तुष्टस्तोत्रेणाहं विशेषतः त्वया कृतमिदं स्तोत्रं यः पठिष्यति दैत्यपशृणुयाद्वा प्रयत्नेन भवेत्तस्येप्सितप्रदम् न तत्र मदसम्भोदं भयं भवति कर्हि चिद अन्ते स्वानन्ददन्तस्मै स्तोत्रं मद्भक्कृदं भवेद एवं तस्य वचश्रुत्वैकदन्तस्य मदासुरः आसुरं भावमुत्सृज्य शान्दरूपस्तमब्रवीत् मदासुर उवाच यदि प्रसन्नभावेन वरदोऽसि गजानन एकदन्तपदे भक्त्रिं देहिनाथ दृढां सदा अन्यम्बरं गणेशान् देहिवृत्तिं च शाश्वतीं भक्षयित्वा सदा देवभजेयं ते पदाम्बुजम् मदस्य वचनं श्रुत्वा ह्येकदन्तस्तमब्रवीद मदीया भक्तिरुग्रादे भविष्यदि मदासुर यत्र मे चादौ पूजनं वा मदासुर तत्र कर्म सुशान्त्या त्वं युक्तो भव सुरक्षयन् विपरीते सदा दैत्य आसुरेण स्वभावतः प्रवर्तय फलं तेषां कर्मणां भक्षयस्व च एवमुक्तो महादैत्यस्तं तथेदिप्रणम्य च नगरं स्वं जगामासावेकदन्तपरायणः दैत्यास्त्रिपुरकाध्याये त्यक्त्वा तं ते ययुस्ततः पातालानि भयोद्विघ्नादेवास्वस्थानमाश्रिताः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एक चरिदे एकदन्तचरिते मदासुरशान्तिप्राप्तिवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ओम्